बहुनेत्रायै नमः ॐ बहुपदायै नमः ॐ बहुकर्णावतंसिकायै नमः ॐ बहुबाहुयुतायै नमः ॐ बीजरूपिण्यै नमः ॐ बहुरूपिण्यै नमः ॐ बिन्दुनादकलातीतायै नमः ॐ बिन्दुनादस्वरूपिण्यै नमः ॐ बद्धगोधाङ्गुलिप्रणाय नमः ॐ बदर्याश्रमवासिन्यै नमः ॐ वृन्दारकायै नमः ॐ बृहत्स्कन्धाय नमः ॐ बृहत्यै नमः ॐ बाणपातिन्यै नमः ॐ वृन्दाध्यक्षाय नमः ॐ बहुनुतायै नमः ॐ बहुविक्रमायै नमः ॐ बद्धपद्मासनासीनायै नमः ॐ बिल्वपत्रतलस्थितायै नमः ॐ बोधिद्रुमनिजावासायै नमः ॐ वडिष्ठायै नमः ॐ बिन्दुदर्पणाय नमः ॐ बालायै नमः ॐ बाणासुनवत्यै नमः ॐ बडवानलवेगिन्यै नमः ॐ ब्रह्माण्डबहिरन्तस्थायै नमः ॐ ब्रह्मकङ्कणसूत्रिण्यै नमः ॐ भवान्यै नमः ॐ भीष्णवत्यै नमः ॐ भाविन्यै नमः ॐ भयहारिण्यै नमः ॐ भद्रकाल्यै नमः ॐ भुजङ्गाक्ष्यै नमः ॐ भारत्यै नमः ॐ भारताशयायै नमः ॐ भैरव्यै नमः ॐ भीषणाकारायै नमः ॐ भूतिदायै नमः ॐ भूतिमालिन्यै नमः ॐ भामिन्यै नमः ॐ भोगनिरतायै नमः द्रदाय नमः ॐ भूरिविक्रमाय नमः ॐ भूतवासाय नमः ॐ भृगुलतायै नमः ॐ भार्गव्यै नमः ॐ भूसुरार्चिरार् अर्चितायै नमः ॐ भागीरथ्यै नमः ॐ भोगवत्यै नमः ॐ भुवनस्थायै नमः ॐ भिष्वराय नमः ॐ भामिन्यै नमः ॐ भोगिन्यै नमः ॐ भाषाय नमः ॐ भवान्यै नमः ॐ भूरुदक्षिणाय नमः ॐ भर्गात्मिकाय नमः ॐ भीमावत्यै नमः ॐ भवबन्धविमोचिन्यै नमः ॐ भजनीयायै नमः ॐ भूतदात्रीरञ्जिताय नमः ॐ भुवेन भुवनेश्वर्यै नमः ॐ भुजङ्गवदयायै नमः ॐ भीमायै नमः ॐ भैरुण्डाय नमः ॐ भागधेयिन्यै नमः ॐ माताय नमः ॐ मायाय नमः ॐ मधुमत्यै नमः ॐ मधुजिह्वाय नमः ॐ मनुप्रियाय नमः ॐ महादेव्यै नमः ॐ महाभाग्यायै नमः ॐ मालिन्यै नमः ॐ मीनलोचनायै नमः ॐ मायातीतायै नमः ॐ मधुमत्यै नमः ॐ मधुमांसायै नमः ॐ मधुद्रवाय नमः ॐ मानव्यै नमः ॐ मधुसम्भूतायै नमः ॐ मिथिलापुरवासिन्यै नमः ॐ मधुकैटभसंवर्स्यै नमः ॐ मेदिन्यै नमः ॐ मेघमालिन्यै नमः ॐ मन्दोदर्यै नमः ॐ महामायायै नमः ॐ मैथिल्यै नमः ॐ मसृणप्रियायै नमः ॐ महालक्ष्म्यै नमः ॐ महाकाल्यै नमः ॐ महाकन्याय नमः ॐ महेश्वर्यै नमः ॐ माहेन्द्र्यै नमः ॐ मेरुतनयायै नमः ॐ मन्दारकुसुमार्चितायै नमः ॐ मञ्जुमञ्जूरचरणाय नमः ॐ मोक्षदायै नमः ॐ मञ्जुभाषिण्यै नमः ॐ मधुरद्राविण्यै नमः